विष्णु विष्णुस्तुति शाताकारंजगशयन पद्मनाभम सुशं विश्वाधारं गगन सदृश मेघवर्ण शुभांगम लक्ष्मीका कमलनयन योगिहृद्यान गम्यम वे विष्णुहर सर्वोकनाथम मेघश्यामं पीतकौशेयवासं श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् पुण्योपेतं पुण्डरीकायताक्षं विष्णुं वन्दे सर्वलोकैकनाथं सशङ्खचक्रं स सपीतवस्त्रं सरसीरुहेक्षणं सहारवक्षस्थलशोभिकौस्तुभम् नमामि विष्णुं शिरसा चतुर्भुजं छायायां पारिजातस्य हेमसिंहासनोपरि आसीनमं बुधश्यामम् आयताक्षमलङ्कृतं चन्द्राननं चतुर्बाहुं श्रीवत्साङ्कितवक्षसं रुक्मिणीसत्यभामाभ्यां सहितं कृष्णमाश्रये वनमाली वनमालीगदीशार्ङ्गी शङ्खीचक्रीचनन्दकी श्रीमान्नारायणो विष्णुः वासुदेवोऽभिरक्षतु नारायणं कृषिकेशं गोविन्दं गरुडध्वजं वासुदेवं हरिं कृष्णं केशवं प्रणमं यहम् अच्युतं केशवं विष्णुम् हरिं सत्यं जनार्दनं हंसं नारायणं चैव तस्मात् नित्यं स्मरे नरः हंसं नारायणं चैव तस्मात् नित्यं स्मरेन्नरः नमामि नारायणपादपङ्कजं करोमि नारायणपूजनं सदा वदामि नारायणनामनिर्मलम् स्मरामि नारायणतत्त्वमव्ययम्